श्रीमद्भागवत्मण द्वादशस्क अथ सप्तमोध्याय अथर्वेद की शाखाएं और पुराणों के लक्षण सुतवाच अथर्वसुमंत शिष्यमध्यापय का संहिता सोपिपध्याय वेद दर्शा चोक्तवान् शौक्लाय निर्बृम्बरं ब्रह्म बलिर्मो दोष पिप्पलायनि वेददर्शस्य शिष्यास्ते पथ्यशिष्यानथोऽशिणुं कुमदशुनको ब्रह्मन् जाजलेश्चाप्यथर्ववीन् बभ्रूशिष्योथाङ्गिरस सैन्धवायन एव च अधीयेतां संहिते द्वे सावर्ण्याद्यास्तथा परे नक्षत्रकल्पशान्तिश्च कस्यपाङ्गीरसादयः एते आथर्वणाचार्याः शृणुपौराणिकान्मुने तैयारुणि कश्यपश्च सावर्णीरकृतव्रणः वयसम्पायनहारितो षड्वै पौराणिका इवे अधीयन्तव्यासशिष्यासंहितां मत् पितुर्मुखात् एकैकामहमेतेषां शिष्य सर्वासमध्यगाम् कस्य पोहं च सावर्णी रामशिष्यो कृतव्रणः अधीमहि व्यासशिष्या चतस्रो मूलसंहिताः पुरालक्षणं ब्रह्मण् ब्रह्मर्षिभिर्निरूपितम् तृणुस्व बुद्धिमाश्रित्य वेदशास्त्रानुसारतः सर्गो शाथविसर्गश्च वृत्तिरक्षान्तराणि च वंशो वंशानुचरितं संस्थाहेतूरपाश्रयः दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदुः केचित्पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया अव्याकृतगुणगुणक्षोभान् महतस्त्रीवृतोऽहम् भूतमातेन्द्रियार्थानां सम्भवः सर्गोच्यते पुरुषानुगृहीतानाम् एतेषां वासिनामयः विसर्गोऽहं समाहारो बीजाद् बीजं चराचरम् वृत्तिर्भूतानि भूतानां चराणाम् अचराणि च कृता स्वेन तत्र कामाच्चोदनयामि वां रक्षाच्युतावतारे हा विश्वस्यानुयुगे युगे श्रियं मर्तर्षिदेवेषु हन्यन्ते जय श्रीदुष मन्वन्तरं मनुर्देवा मन्पुत्रा सुरेश्वरद्विषयंसावतारश्च हरे षड्विधुमुच्यते राज्ञां ब्रह्मप्रसूतानां वंशत्रैकालिकोऽन्वयः वंशानुचरितं तेषां वृत्तं वंशधराश्चये नैमित्तिकप्राकृतको नित्य आत्यन्तिकोलयः संसेति कविभिः प्रोक्ता चतुर्धास्य स्वभावतः हेतुर्जीवोश सर्गादेः अविद्या कर्मकारकः यं चानुशयनं कृतमुता परे व्यतिरेकान्वयो यस्य जाग्रस्वप्नसुसोप्तिषु मायामयेषु तद्ब्रह्म जीववृत्तिष्वपाश्रयः पदार्थेषु यथा द्रव्यं सन्मात्रं रूपनामचो भेजादि विरमेत यदा चित्तं भित्त्वा वृत्तित्रयं श्रयं योगेन वा तदात्मानं वेदेहाया निवर्तते एवं लक्षणलक्ष्याणि पुराणानि पुराविदः मुनियोष्टादशप्राहुच्छुल्लकानि महान्ति च ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं सगारुडम् नारदीयं भागवतम् आग्नेयं स्कन्दसङ्गितम् भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं समामनम् वाराहं मास्यं कौर्मं च ब्रह्माण्डाख्यमिति त्रिषण् ब्रह्मण्दं समाख्यातं शाखाप्रणयनं मुनेः शिष्यशिष्यप्रशिष्याणां ब्रह्मतेजोविवर्धनम् इति श्रीमद्भागवते महापुराणे पारहंसां सीतायां द्वादशस्कन्धे सप्तमोऽध्यायः